गरुडपुराणम् प्रेतकाण्डम् धर्मकाण्डम् अध्यायम् फोर् श्रीकृष्ण उवाच ज्ञानतो ज्ञानतो वापि यन्नरैः कलुषम् कृतम् तस्य पापस्य शुद्ध्यर्थम् विधेया निष्कृतिर्नरैः भमादिस्नानदशकमादौ कुर्याद्विचक्षणः यथाशक्रि षडब्दादिप्रत्याम्नायाचरेदपि तदर्थं वा तदर्थं वा तदर्थार्थमधापि वा यथाशक्र्या तदकुर्या दशदानानि वै शृणु गोभूतिलहिरण्याज्य वासो धन्यगुडास्तधा रजतं लवणं चैव दानानि दश वैविदुः प्रायश्चित्ते त्वागदाये तेभ्यो दध्यान्नरो दश ततो यमद्वारपथे पूय शोणितसङ्कुले नदीं वैतरणीं तर्तुं दद्याद्वैतरणीं च गां कृष्णस्तनी स कृष्णाङ्गी स्मृता पिलालोहम हिरण्यं च कर्पासं लवणं तथा सप्तधान्यं क्षुदीर्गावयेकैकं पावनं स्मृतम् एतान्यष्टौमः दानान्युत्तमा यद्विजादये आधुरेण तु देयानि पदरूपाणि मे शृणु चत्रो पानहवस्त्राणि मुद्रिकाचकमण्डलुः आसनं भाजनं पदं चाष्टविधं स्मृदम् तिलापात्रं सर्पिः शय्या सोपस् करा तथा यदत्सर्वम् प्रदातव्यम् यदिष्ठम् चात्मनोऽपि तद् अश्वरथश्च महिषीव्यञ्जनम् वस्त्रमेव च ब्राह्मणेभ्य प्रदातव्यम् ब्रह्मपूर्वमपि स्वयम् दानान्यपि खगतर्पयेत् स्वीयशक्तितः प्रायश्चित्तं घृतं येन दश दानन्यपेक्षितौ दानं गोर्वैतरण्याश्च दानान्यष्टौ तथापि वा तिलपात्रं सर्पिपात्रं शय्यादानं तथैव च पददानं च विधिवन्नासौ निरयगर्भगः स्वातन्त्र्यन्नापि लवणदानमिच्छन्ति सूरयः विष्णुदेहसमुत्पन्नो यदोऽयं लवणो रसः आदुरस्य यदा प्राणान् नयान् दिवसुधातले लवणं च तदा देयं द्वारस्योद्वाडनं दिवः यानि कानि च दानानि स्वयं दत्तानि मानवैः तानि तानि च सर्वाणि उपतिष्ठन्ति चाग्रदः प्रायच्चित्तं कृतं येन साङ्गं खग स पुमान् पापानि भस्मसात्कृत्वा स्वर्गलोके महीयते अमृतं तु गवां क्षीरं यदपदगः सप्तमम् तस्मात् ददाति यो धेनुमममृतत्वं स गच्छति दानान्यष्टौ तु दत्त्वा वै गन्धर्वनिलये वसेद आलयस्तत्र रौद्रे हि दह्यते येन मानवः क्षत्रदानेन शुचाया जायते पथितुष्टिधा असिपत्रवनं धारमधिक्रामदि वै सुखम् अश्वारूढश्च व्रजति दददे यद्युपानहौ भोजनासनदानेन सुखं मार्गे भुनक्रि वै प्रदेशे निर्जले दादा सुखी स्याद्वै कमण्डलोः यमदूदा महारौद्रा कराला कृष्णपिङ्गलाः न पीडयन्ति तिलपात्रम् तु विप्राय दत्तम् पत्ररथध्रुवं नाशये त्रिविधं शापं वाङ्मनःकायसम्भवम् कृतपात्रप्रदाने रुद्रलोकेवसेनरः सर्वोपस्करसंयुक्तां शय्यां दत्वा द्विजातये नानां सरोभिरागीर्णं विमानमधिरोहति षष्टिवर्षसहस्राणि क्रीडित्वा शक्रमन्दिरे इन्द्रलोकात् परिभ्रष्ट इहलोके नृपो भवेद् सर्वोपस्करणोपेतं युवानं दोषवर्जितं योश्वं ददादिभिप्रायस्वर्गलोके च तिष्ठति यावन्तिरोमाणि हये भवन्ति हि खगेश्वर तावदोराजितां लोकानाप्नुवन्ति हि पुष्कलान् चतुर्भिस्तुरगैर्युक्तं सर्वोपकरणैर्युदम् रधं द्विजादये दत्त्वा राजसूयफलं लभेद दुग्धाधिकां च महिषीं नवमेकवर्णां सन्तुष्टतर्णकवलीं जघनाभिरामां दत्त्वा सुवर्णतिलकां द्विजपुङ्गवाय लोकोदयं स जयतीति कालवृन्दस्य दानेन वायुना विज्यदे पथि कान्ति यो सुभगश्रीमान् भवत्यम्बरदानदः प्रसन्नोपस्करयुधं गृहं विप्राय योर्पयेद न हीयदेतस्य वंशस्वर्गं प्राप्नोत्यनुतमं भवत्यत्र खगश्रेष्ठ फलगौ कलाघवं श्रद्धा श्रद्धा विभेदेन दान गौरवलाखवाद तदो ततो येनाम्बुदानानि कृदान्यत्र रसास्तधा तदाखगत्तथा ह्लादमापदि प्रतिपद्यते अन्नानि येन दत्तानि श्रद्धा भूदेन चेदसा सोऽपि तृप्तिमवाप्नोति विनाप्येन् विनाप्यन्येन वै आसन्ने मरणे कुर्याः संन्यासं चेद्विधानदः आवर्तेद पुनर्नसौ ब्रह्मभूयाय कल्पदे आसन्नमरणो मत्यश्चेत्तीर्थं प्रदिनयिते तीर्थप्राप्तौ भवेन्मुक्तिर्म्रियते यदि मार्गगः पदे पदे क्रदुसमं भवेत्तस्य न संशयः गृह्णीया चेतनशनं व्रतं विधिवदा गदे मृत्यौ न सोऽपि भूय पर्यडदि किं दानमिति तुर्यस्य प्रश्नस्योत्तरमीदितम् दाहमृत्योरन्तरे किमिति प्रश्नोत्तरं शृणु गतप्राणं तद् ज्ञात्वा स्नात्वा पुत्रादिराशुदं। शवं जलेन शुद्धेन क्षालयेदविचारयन् परिधाप्यहदेवस्त्रे चन्दन है प्रोक्षयेत् तनुं ततो मृदस्य स्थाने वै समाचरेद प्रयोगपूर्वं दाहस्य योग्यतादिर्यथा भवेद आं सनं प्राक्षण च स्यान्न स्यादेतच्चतुष्टयम् आवाहनार्चन चैव पान्द्रालम्भावगाहने भवेद्दानान्नसङ्कल्पपिण्डदानं सदा भवेद पदार्थपञ्चकं न स्याद्रेखाप्रत्यवने जनं दद्यादक्षय्यमुदकं न स्यादेधत्रयं पुनः स्वथावाचनमाशीश्च तिलकं च खगोत्तम कडं दद्यात्समाशान्नं दद्याल्लोहस्य दक्षिणां पिण्डस्य चालनं प्रोक्तं नैव प्रोक्तमिदं त्रिकम् प्रच्छादनविसर्गौजस्वस्तिवाचनकं तथा येषु षट् सुविधिप्रोक्तश्राद्धेषु मलिनेषु ते षडेव मरणस्थाने द्वारिचत्वारिके तथा विश्रामे काष्टचयने तथा सञ्चयने खग मृदिस्थाने शवो नाम पान्धोद्वारि भवेत्तेन प्रीदा स्याद्वस्तु देवता चतुरेके जरस्तेन तुष्येभृतादिदेवता विश्रामे भूतसंज्ञोऽयं तुष्टस्तेन दिशो दश चितायां साधक इति सञ्चितौ प्रेद उच्यते तिलदर्भकृते धांसि गृहीत्वा तु सुदादयः गाधां सूक्तं वाप्यधियाना व्रजन्तीः अहरहर्णीयमानो पुरुषं वृषं वैवस्वतो न तृप्येद सुरयात्विव दुर्मदिः इमां सूक्तं वा पथि सम्पठेद दिश्यरण्यं व्रजेयुः सर्वबान्धवाः पदि श्राद्धद्वयं कुर्यात् पूर्वोक्तविधिना कग ततश्च नैर्भूतले वै दक्षिणाशिरः संशवं स्थापयित्वा चिदभूमौ पूर्वोक्तं श्राद्धमाचरेत तृष्ण काष्ठतिलाज्यादिस्वयं निन्यःसुतादयः शूद्राणि दयि कृतं कर्म सर्वं भवति निष्फलम् प्राचीना वीधिनाभाव्यं दक्षिणाभिमुखेन च वेदि तत्र प्रकर्तव्या यथा शास्त्रमथाण्ड वस्त्रं द्विधा कृत्वाद्धेन चादयेत्तदः अर्धं श्मशानवात्सार्धं भूमावेव विनिः क्षिपेद ततः पूर्वोक्तविधिना पिण्डं प्रेदकरेण्यसेद आज्येनाभ्यञ्जनं कार्यं सर्वाङ्गेषु शवस्य च दाहमृत्योरन्तराले विधिपिण्डस्य तं शृणु पूर्वोक्तै पञ्चपिप्ण्डैः शवस्याहुदि योग्यता अन्यथा चोपखादा च राक्षसाद्या भवन्ति हि समृज्य चोपलिप्याथ उल्लिख्यो धृत वेदिकाम् अभ्यक्ष्योपसमाधाय वह्निम् तत्र विधानदः पुष्पाक्षतैश्च सम्पूज्य देवं क्रव्याद श्रौतेन दुविधानेन ह्याहिताग्निं दहेद्बुधः चण्डालाग्निं चिदाग्निं च पतिताग्निं परित्यजेद् त्वम्भूतकृज्जगद्योनिस्त्वं लोकपरिपालकः उपसंहार तस्मात्त्वमेनं स्वर्गं नया मृदम् इति क्रव्यादमभ्यर्च्य शरीराहुदिमाचरेत् अर्थदग्धे तदा देहे दद्यादाज्याहुदिं ददः अस्मात्त्वमधिजातोऽसि त्वदयं जायदां पुनः असौ स्वर्गाय लोकाय स्वाहेत्युक्त्वादु नामदः एवमाज्ञाहुदिं दत्त्वा तिलमिश्रां समन्तकम् रोदितव्यं ततो गाढमेवम् तस्य सुखम् भवेत् दाहस्यानन्तरम् तत्र कृत्वा सञ्चयनिक्रियाम् प्रेतपिण्डं प्रदद्याच्च दाहार्तिशमनम् खग तदः प्रदक्षिणम् कृत्वा चित्ता प्रस्थानवीक्षकाः कनिष्ठपूर्वास्नानार्थं गच्छे युः सूक्तजापकाः ततो जालसमीपे तु गत्वा प्रक्षाल्य चांशुकम् परिधाय पुनस्तच्छयुस्तम् पुरुषम्प्रदि उदकम् तु करिष्यामः स चैलं पुरुषास्ततः कुरुध्वमित्येव वदे चतुवर्षावरे मृते पुत्राद्या वृद्धपूर्वास्ते एकवस्त्रा शिखां विना प्राचीनाविधिनः सर्वे विषेयुर्ममुनिनो जलम् अपनशोच्युचदखमनेन पितृदिङ्मुखाः जलावकट्टनं चवनः कुर्युस्नानकारकः ततस्तडे समागत्य शिखाम् बद्ध्वा ऋजून् कुशान् दक्षिणाग्रहस्तयोस्तु कृत्वाथ सतिलं जलम् आदायाञ्जलिनायाम्यां दुःखी पैतृततीर्थतः एकवारं त्रिवारं वा दशवारमधापि वा भू मा वश्मनि वा सर्वे क्षिपेयुर्वाग्यताकग तृप्यन्द्रुतृप्यदां वापि तर्पयाम्युपतिष्ठदां प्रेतैतद प्रेतैतदमुकगोत्रेत्युक्तेष्वेवं समुच्चरेद जलाञ्चलौ कृते पश्चाद्विधेयं दन्तधावनम् त्यजन्ति गोत्रिणः सर्वे दिनानि नवकाश्यप तद उत्पूर्यो दभाद्वैवस्त्राणि परिधाय च स्नानवस्त्रं सकृत्पीड्यविषे युशुचिभूतले अश्रुपादं न कुर्वीद दत्त्वा दाहजलाञ्जलिं क्लेष्माश्रुबन्धवैर्मुक्तं प्रदो भुङ्क्ते यतो वशः अतो न रोदितव्यं हि गृह्या कार्य स्वशक्तितः तदस्तेषु उपविष्टेषु पुराणज्ञः सुकृत्स्वकः शोकापनोदं गुर्वेदसंसारान्नित्यदाम्ब्रुवन् मानुष्यकदलीस्तम्भे असारे सारमार्गणं करोति यः जलबुद्धवद्रसन्निभे पञ्चधासम्भृतकायो यदि पञ्चत्वमागतः कर्मभिस्वशरीरोद्धायस्तत्रपा परिदेवना गन्ध्रीव सुमदीनाशमुदधिर्दैवतानि च ह्येन प्रख्यक्कथं नाशम् मध्यलोको न यास्यति एवं संस्रावय तत्र मृदुशाद्वलसंस्थितान् ते हि संश्रुत्य गच्छेयुर्गृहं बालपुरःसराः विदच्छ्याय निम्बपत्राणि नियतद्वारि वेश्मनः आचम्य वह्निसलिलं गोमयं गौरसर्षवान् दूर्वाप्रवालं वृषभमन्यदप्यथमङ्गलम् प्रविशेयुः समालभ्य कृता कृत्वाश्मनिपदं शनैः श्रौदेन दुवित्थानेन आहिताग्निम् देहद्वधः पूनद्विवर्षम् निखनेन कुर्यादुदकं तदः योषित्पतिव्रता या स्याद्भर्तारं यानुगच्छति प्रयोगपूर्वं भर्तारं नमस्कृत्यारुहेच्छितिं चितिभ्रष्टा दुया मोहात् सा प्राजापत्यमाचरेत् तिस्रकोट्योर्धकोटीयानि लोमानि मानुषे तावत तबत्ल वसेगे भर्ता व्यालग्राही यदा यहां व्याल बिलादुरदे बलाद तदवु सा नारी तेन सह मोदे ततृपरतूय मनासरोगण क्रीडदेपदिना सार्धं यावदिन्द्राश्चतुर्दश ब्रह्मघ्नो वा कृदघ्नो वा मित्रिघ्नो वा भवेत्पदिः पुनात्यविधवा नारी तमादाय मृदादुया मृदे भर्तरिया नारी समा नारी समारोहेधुदाशनम् सारन्थदीसमाचार स्वर्गलोके महीयते यावच्चाग्नौ मृते पत्याौ स्त्री नात्मानं प्रदाखयेत् तावन्नमुच्यते सा हि स्त्रीशरीरात् कथञ्चन मातृकं पैतृकं चैव यत्र प्रदीयते कुलत्रयम् पुनः तेषा यानुगच्छति आर्तार्ते मुदिदे हृष्टाक्रोषिदे मलिना कृशा मृदे म्रियेदया पत्यौ शास्त्री ज्ञेयापदिव्रता पृथक्चिदाम् समारुह्य न प्रिया गन्धुमर्हति आरोहेयुरपि सताः चाण्डालीमवधिं कृत्वा ब्राह्मणी दस्समो विधिः अगर्भिणीनां सर्वासामबालताग्मेनामपि दहनस्य विधिप्रोक्तः सामान्येन मया खग विशेषमपि तस्यास्य किञ्चित् किं श्रोतुमिच्छति गरुड उवाच प्रोषिते तु मृदे स्वामिन्यास्तृन्निनाशमुपेयुषि कथं दाहप्रकर्तव्यस्तन्मेवतजगत्पदे श्रीकृष्ण उवाच अस्थीनि चन्न लभ्यन्ते प्रोषितस्य नरस्य च तेषाञ्च हि गदितानं विधानं कथयाम्यहम् शृणुतार्क्ष्यपरं गोप्यम् पत्युर्दुर्मरणेषु यदङ्घनैर्ये मृता जीवां दंष्ट्रिभिच्चाभिखादिताः कण्डग्रहे विलग्नानां क्षीणानां तुण्डकादिनां विषाग्नि विशुच्या वृषविप्रेभ्यो विसूच्या चात्मपादकाः पतनोद्बन्धनजलैर्मृतानां शृणु संस्थितिं सर्पव्याघ्रैः शृङ्गिभिश्च उपसर्गोपलोदकैः ब्राह्मणैस्वापदैश्चैव पदनैर्वृक्षवैद्युतैः कट्वाया नखैर्लोहैर्गिरेपादैर्भित्तिपादैर्भृगोस्तथा कट्वायामन्दरीक्षे चौरचाण्डालतस्तथा चा। उदख्या शुनकिशूद्ररचकादिविभूषिताः ऊर्ध्वो चच्छिष्टाधरोच्छिष्टो भयोच्छिष्टास्तु ये मृताः शस्त्रखादायैर्मृता ये चास्य श्वस्पृष्टास्तथैव च तत्तु दुर्मरणं ज्ञेयं यच्च जादम् विधायि विना तेन पापेन नरकान् भुक्त्वा प्रेदत्वभागिनः न तेषां कारयेद्दाखं सूतकं नोदकक्रिया न विधानं मृदाद्यं च दैहिकं न पिण्डदानं कर्तव्यं प्रमादा चेत् करोति हि नोपतिष्ठति तत्सर्वमन्तरिक्षे विनश्यति अतस्तस्य शुभै शुभमिच्छुभिः नारायण बलिकार्यो लोगर्हाभियाघग तथा तेषां भवेच्छौजं नान्यधेत्यब्रवीद्यमः बला नारायणबला वर्ध्वदेहिकयोग्यथा तस्य शुद्धिकरं कर्म तद्भवेन्न तदन्यथा बलिम् सम्यक्तीर्थे सर्वं प्रर्पयेत् कृष्णाग्रे कारयेर्विप्राैर्येण भूतो भवेन्नरः पूर्वं तु तर्पणं कार्यं विप्रायः पौराणवैदिकैः सर्वौषध्यक्षतैर्मिश्रायैर्विष्णुमुद्दिश्य तर्पयेत् कार्यम् पुरुषसूक्तेन मन्त्रैर्वा वैष्णवैरवी दक्षिणाभिमुखो भूत्वा प्रेदं विष्णुमिति स्मरन् अनादिनिधनो देवशङ्खचक्रगदाधरः अक्षयपुण्डरी काक्षप्रेदमोक्षप्रदो भव तर्पणस्यावसाने स्याद्वीधरागो विमत्सरः जितेन्द्रियमन भूत्वा शुचिष्मान्धर्मतदुपरः भक्त्या तत्र प्रगुर्वेदशाद्धान्येकादशैव दू सर्वकर्मविधाने ये कैकाग्रे समाहितः तो यव्रीह्य वान् दद्याद्गोधूमांश्च प्रियङ्गवः वा, अविश्यान्नं शुभं मुद्रां चत्रोष्णीष्ये च दापयेद् दापयेत्सर्वसंस्यानि क्षीरं क्षौद्रसमान्वितं वस्त्रोपानहसंयुक्तं दद्यादष्टविधं पदम् पद्ये सर्वपापेभ्यो न कुर्यात् पङ्क्ति भूमौ स्थितेषु पिण्डेषु गन्धपुष्पाक्षतान्वितं दातव्यं सर्वं विप्रभ्यो वेदशास्त्रविधानतः शङ्खे खड्गे धताम्रे तर्पणञ्च पृथक् पृथक् ध्यानधारणसंयुक्तो जानुभ्यामवनीं गतः ऋचावैदापये दर्क मर्कोद्दिष्टम् पृथक् पृथक् ब्रह्माविष्णुश्च रुद्रश्च यमप्रेतश्च पञ्चमः पृथक् कुम्भे तदस्ताप्याः पञ्चरत्नसमन्विताः वक्त्रयज्ञोपवीतानि पृथङ् मुद्गाः पदानि च पञ्चश्राद्धानि गुर्वीददेवतानां यथाविधि जलधारां ततः कुर्यात्पिण्डे पिण्डे पृथक् पृथक् सङ्खे वा ताम्रपात्रे वा अलाभे मृण्मयेऽपि वा तिलोदकं समादाय सर्वोषधिमसन्वितं ताम्रपात्रं तिलै पूर्णं स हिरण्यं सदक्षिणं दद्याद्ब्राह्मणमुख्याय पददानम् तथैव च यमोद्देश्ये तिलाम् लौहम् ततो दद्याच्च दक्षिणाम् एवं विष्णुबलिम् दत्त्वा यथा चक्रियाविधानदः समुद्धरति तत्क्षिप्रम् नाग विचारण नागदंशान्मृदो यस्तु विशेषस्तन्दु मे शृणु सुवर्णभारनिष्पन्नं नागं कृत्वा तथैव गां विप्राय दत्वा विधिवत् विदुरान्नृण्यमाप्नुयात् एवं सर्पबलिं दत्त्वा सर्पदोषाद्विमुच्यते पश्चात् पुत्तलकं कार्यं सर्वोषधि समन्वितं पलाशस्य वृन्दानां विभागं शृणुकाश्यत कृष्णाजिनं समास्थीर्य कुश्यैश्च पुरुषाकृतिं शतत्रयेण षष्ट्या च वृन्द्यै प्रोक्तोऽस्ति सञ्चयः विन्यस्य तानि वृन्दानि अङ्गेष्वेषु पृथक् प्रधक पृथक् चत्वारिंशच्चिरो भागे ग्रीवायां विंशत्युत्तरस्थले दद्याद्विंशदिञ्जठरे तथा बाहुद्वये शतं दद्यात् कडिदेश्ये च विंशतिम् ऊरुद्वये शतं चाभित्रिंशद् जङ्घाद्वये न्यसेद दद्यात् चतुष्टयं शिष्णे षट् दद्याद् वृषणाद् वृषाणद्वये दश पादुभागेस्तीसेद नारिककेल शिस्थ तुंब दाूके पंचरत् मुखे दद्जिवायां नलिकं अंध्रषु नलिक दद्द्वालुकाणे वसायां मृत्तिकां दद्या धरितालमनःशिलाः पारदमृतसस्थाने भुरीशे पित्तलं तथा मनःशिला तथा गात्रे तिलपक्वन्तु सन्धिषु यवपिष्टं यथा मांसे मधुशोणिदमेव च केशेषु च जडाजूडं त्वयाञ्च मृग त्वजम् कर्णयोस्तालपत्रञ्जस्तनयोश्चैव गुञ्जिकाः नासायां शतपत्रञ्जकमलं नाभिमण्डले वृन्दाकं वृषणद्वन्द्वे लिङ्गे स्याद्गृञ्जनं शुभं घृतं नाभ्यां प्रदेयम् स्यात् कौपीने च त्रपुस्मृतम् मौक्तिकंस्तनयोर्मूर्ध्नि कुङ्गुमेव विलेपनं कर्पूरा गुरुधूपैश्च शुभैर्माल्यैः सुगन्धिभिः परिधानं पट्टसूत्रं हृदये चैव विन्यसेद वृद्धिवृद्धिभुजौ द्वौ चक्षुर्भ्याञ्च कपर्दकं दन्तेषु दाढिमी बीजान्यङ्गुलीषु चम्बकं सिन्धूरं नेत्रकोणे च ताम्बूलाद्युपहारकं सर्वौषधियुधं प्रेतं कृत्वा पूजां व्यथोदितां साग्नीके चाभिविधिना यज्ञपात्रं न्यस्ये क्रमाद स्त्रियपुनन्दुमशिर इममे वरुणेन च प्रतस्य पावनं कृत्वा शालग्रामशिलोदकैः विष्णुमुद्दिश्य दादव्या सुशीलाघौ पयस्विनी तिला लौहं हिरण्यं च कर्पासं लवणं तथा सप्तधान्यं क्षिदीर्गाव पावनं स्मृतं तिलपात्रं तदो दद्यात्पदानं तथैव कर्तव्यं वैष्णवं श्राद्धं प्रेद मुक्त्यर्थमात्मनः प्रेतमोक्षं तदकुर्याद्धृदिविष्णुं प्रकल्प्य च एवं पुत्तलकं कृत्वा दाहयेद्विधिपूर्वकं तच्छ्रुद्धयेद् संस्कर्ता पुत्रादिर्निष्टकृतिं पुत्रादिर्निष्कृतिं चरेत् त्रीन्कृच्छ्रान्षड्द्वादश च तथा पञ्चदशापि च प्रायश्चित्तनिमित्तानुसारेण विप्रवस्मृतः अशक्तौ गो हिरण्यादिप्रत्याम्नायम् चरेदपि आत्मनोनधिकारित्वे शुद्धिमेवं चरेद्बुधम् चरेद्बुधः अशुद्धेन तु यद्दत्तमुद्दिश्य शुद्धिमेव च नोपतिष्ठति सर्व तत्सर्वमन्तरिक्षे विनश्यति शुद्धिं सम्पाद्य कर्तव्यं दहनाद्यर्ध्व देहिकम् अकृत्वा निष्कृतिं यस्तु कुरुदे दहनादिकं मदिपूर्वमत्याज क्रमास्तनिष्कृतिं शृणु कृत्वाग्निमुदकं स्नानं स्पर्शनं वहनं कथां रद्युच्छेदाश्रुपादं च तप्तकृच्छ्रेण शुध्यति येषामन्यतमं प्रेतं यो वहेतु देहदा वा कटोदक्रियां कृत्वा कृच्छ्रसान्तवनं चरेद निमित्ते लघुनिस्वल्पं महन्महधिकल्पयेद गरुड उवाच कृच्छ्रस्य तप्तकृच्छ्रस्य तथा सान्दवनस्य च लक्षणं ब्रूहि मे स्वामिं स्त्रयाणामपि सुव्रत श्रीकृष्ण उवाच त्र्यहं प्रातस्त्र्यहं सायं स्त्रियः मद्यादयाजिदम् उपवासस्त्रियहञ्च एष कृच्छ्र उदाहृदः तप्त क्षीरकृदाम्बूना मेकैकम् प्रत्यसम् पिबेद एकरात्रोपवासश्च तप्त कृच्छ्र उदाहृदः गोमूत्रम् गोमयम् क्षीरम् दधि सर्पिकुशोदकं जग्ध्वा परेक्ष्ुपवस्ये कृच्छ्रं मयादेयं समाख्यादो दुर्मृतस्य विधिखग तदा मृदं विजानीया दीपनिर्वाणमागतः अग्निदाहं ततः कुर्यासूतकञ्च दिनत्रयं दशाखं गर्त पिणाडच्च कर्तव्यं प्रेदपूर्वकम् एवंविधिं तद कुर्यात्तदप्रेदश्च मुक्तिभाक मृदभ्रान्त्या प्रति कृते दे कृते दाहे स वै यदि आयादि तेन कर्तव्यम् ऊठा मे वत्स्वकां भार्यामुद्वहे द्विधिवत्पुमान् वर्षे पञ्चशते पक्षिन्द्वादशे वागदे सदि अज्ञातस्य प्रोषितस्य कृत्वा प्रतिकृतिं दधेद रजस्वलासूदिकयोर्विशेषं मरणे शृणु सूदिकायां या मृदायां याज्ञिकाः कुम्भे सलिलमादाय पञ्चगव्यं तथैव च पुण्याभिरभिमन्त्र्यापोवाचाशुद्धिं लभेत्तदः शतशूर्पोदकेनादौ स्नापयित्वा यथा विधि तेनैव स्नापयित्वादुदाहं कुर्यात् स्वगेश्वर पञ्चपि स्नापयित्वादु गव्यैप्रेदाम्रजस्वलाम् वस्त्रान्तराकृतिम् कृत्वा दाहयेद्विधिपूर्वकम् मृदस्य पञ्चके दाहविधिं वच्मि शृणुष्व मे आदकृत्वा धनिष्ठार्ध मे दन्नक्षत्रपञ्चकम् सदा दूष्यमशुभम् सर्वदा भवेद दाहस्तत्र कर्तव्यो विषादसर्वजन्तुषु न जलं दीयते तेषु अशुभम् सर्वदा भवेद् पञ्चकानन्तरम् सर्वं कार्यं कर्तव्यमन्यथा पुत्राणां गोत्रीणां तस्य सन्तापोऽप्युपजायते गृहेह निर्भवत्येव वृक्षेष्वेषु मृतस्य च अथवा ऋक्षमध्ये च दाहस्तु विधिपूर्वकः क्रियते मानुषाणान्दुस वा आहुधिपूर्वकः विप्रायैर्विधिरथकार्यो मन्द्रायिस्तु विधिपूर्वकम् शवस्थानसमीपे तु क्षेप्तव्या पुत्रलास्ततः दर्भकुक् स्तु चत्वार ऋक्षमन्त्राभिमन्त्रिताः तदो दाहप्रकर्तव्यस्तैश्च पुत्तलकैः सह सूतकान्ते तदा पुत्रायि कार्यं शान्तिकपौष्टिकम् पञ्चकेषु मृतो योऽसौ न सदिं लभदे नरः तिलान्काञ्च सुवर्णञ्च समुद्दिश्य कृतं तदेध विप्राणां दापये दानं सर्वविघ्नविनाशनं भो जनोपानहौच्छ्रं हेममुद्राजवाससि दक्षिणादीयदे विप्रे पादकस्य प्रमोचनः मया देयं समाख्यातो संयमिन्यां यथा यानं यथा वर्षं मृदक्रिया इति श्रीगारुडे महापुराणे प्रेतकल्पे श्रीकृष्णगरुडसंवादे दहनविधि कृच्छ्रलक्षणदग्धागमनरजस्वलमरण विधि पञ्चगमरणप्रायचित्तनिरूपणं नाम चतुर्थोऽध्यायः ओम्